षट्पञ्चाशदधिकशततमोऽध्यायः जनमेजयौ वाच एकचक्राम् कतास्तेत् कुन्ती पुत्रा महारथाः अत ऊर्ध्वम् द्विज श्रेष्ठ किमखुर्वत पाण्डवाः वैशम्पायनौ उवाच एकचक्राम् कतास्तेत् पुत्रा महारथाः ऊषुर्नातिचिरम् कालम् ब्राह्मणस्य निवेशने रमणीयानि पश्यन्तो वनानि विविधानि च पार्थिवानपि चोद्देशान् सरितश्च सरांसि च चेरुर्भैक्ष्यम् तदा ते तु सर्व एव विशाम्पते बभूवुर्नागराणाम् च स्वैर्गुणैः प्रियदर्शनाः दर्शनीया द्विजाः शुद्धा देवगर्भोपमा शुभाः भैक्षानर्हाश्च राज्यार्हाः इति ब्रुवन् बन्धूनाम् आगमान् नित्यम् उपचिन्त्यतु भाजनानि च पूर्णानि भक्ष्य भोज्यैरकारयन् मौनव्रतेन संयुक्ता भैक्षम् गृह्णन्ति पाण्डवाः माता चिरगतान् दृष्ट्वा शोचन्तीति च पाण्डवाः त्वरमाणा निवर्तन्ते मातृगौरवयन्त्रिताः निवेदयन्ति स्म तदा कुन्त्या भैक्षम् सदा निशि तया विभक्तान् भागांस्ते भुञ्जते स्म पृथक् पृथक् अर्थम् ते वीराः सह मात्रा परन्तपाः अर्धम् सर्वस्य भैक्षस्य भीमो भुङ्क्ते महाबलः तथा तु तेषाम् वसताम् तस्मिन् राष्ट्रे महात्मनाम् अतिचक्रामसु महान् कालोऽथ भरतर्षभ ततः कदाचिद् भैक्षाय गतास्ते पुरुषर्षभाः सङ्गत्या भीमसेनस्तु तत्रास्ते पृथया सः अथात्तिजम् ब्राह्मणस्य निवेशने भृशमुत्पतितम् घोरम् कुन्ती शुश्रावभारत रोयमाणाम् स्ताम् दृष्ट्वा परिदेवयतश्च सा कारुण्यात् साधुभावाच्चकुन्ती राजन्न चक्षमे मथ्यमानेन दुःखेन हृदयेन पृथा तदा उवाच भीमं कल्याणी कृपान्वितमिदम् वच वसामसु सुखं पुत्र ब्राह्मणस्य निवेशने अज्ञाताधार्त राष्ट्रस्य सकृतावीतमन्यवः सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किन्वहम् प्रियम् गृहे यत् कुर्युरीषिताः सुखम् एतावान् पुरुषस्तात कृतम् यस्मिन्ननश्यति यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकम् तत तदिदम् ब्राह्मणस्यास्य दुःखमापतितम् ध्रुवम् तत्रास्य यदि साहाय्यम् कुर्यामुपकृतम् भवेत् भीमसेनो न्यायतामस्य यद्दुःखम् यतश्चैव समुत्थितम् विदित्वा व्यवसिष्यामि यद्यपि स्यात् सुदुष्करम् वैशम्पायिनौ एवम् तौ कथयन्तौ च भूयः स्वनम् आर्तिजम् तस्य विप्रस्य सभार्यस्य विशाम्पते अन्तः ततस्तस्य ब्राह्मणस्य महात्मनः विवेश त्वरिता कुन्ती बद्धवत्सेव सौरभी ततस्तम् ब्राह्मणम् तत्र भार्यया च सुतेन च दुहित्रा चैव सहितम् ददर्शावनताननम् ब्राह्मण उवाच धिगिदम् भृषम प्रियभागि च आत्मा ह्येको हि धर्मार्थौ कामम् चैव निषेवते एतैश्च विप्रयोगोऽपि दुःखम् परमनन्तकम् आहुः केचित् परम् मोक्षम् स च नास्ति कथञ्चन अर्थप्राप्तौ तु नरकः कृत्स्न एवोपपद्यते अर्थेऽप्सुता परम् दुःखमर्थप्राप्तौ ततोऽधिकम् जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् न हि प्रपश्यामि येन मुच्येयमापदः पुत्रदारेण वासार्धम् प्राद्रवेयमनामयम् यतितम् वै मया पूर्वम् वेत्थ ब्राह्मणि तत्तथा क्षेमम् यतस्ततो गन्तुम् त्वया तु मम न विवृद्धास्मि पिता चापि ममेति वै सकृत् स्वर्गतोऽपि पिता माता चिरन्तव बान्धवा भूतपूर्वाश्च तत्र वासे कारति सोऽयम् ते बन्धुकामाया अशृण्वत्या बन्धु प्रणाशः सम्प्राप्तो भृशम् दुःखकरो मम अथवा मद्विनाशोऽयम् न हि शक्ष्यामि कञ्चन परित्यक्तुमहम् बन्धुम् स्वयम् जीवन्नुशंसवत् सह धर्मचरीम् दान्ताम् नित्यम् मातृसमाम् मम सखायम् विहिताम् देवैर्नित्यम् परमिकां गतिम् पित्रा मात्रा च विहिताम् सदा गार्हस्थ्य भागिनीम् वरयित्वा मन्त्रवत् परिणीय च कुलीनाम् शील त्वामहम् जीवितस्यार्थे साध्वीमनपकारिणीम् परित्यक्तुम् न शक्ष्यामि भार्याम् नित्यमनुव्रताम् कुत एव परित्यक्तुम् सुतम् शक्ष्याम्यहम् बालमप्राप्त वयसमजातव्यञ्जनाकृतिम् भर्तुरर्थाय निक्षिप्ताम् न्यासम् महात्मना ययादौ हि त्यजाल्लोकानाशंसे पितृभिः सह स्वयमुत्पाद्यताम् बालाम् कथमुत्सृष्टुमुत्सहे मन्यन्ते केचिदधिकम् स्नेहम् पुत्रे पितुर्नराः कन्यायाम् केचिदपरे मम तुल्याबुभौ स्मृतौ यस्याम् लोकाः प्रसूतिश्च स्थितानित्यमथो सुखम् अपापाम् तामहम् बालाम् कथमुत्सृष्टुमुत्सहे आत्मानमपि चोत्सृज्य तप्स्यामि परलोकगः त्यक्ताह्येते मया व्यक्तम् नेह शक्ष्यन्ति जीवितुम् एषाम् चान्यतमत्यागो नृशंसो गर्हितो बुधैः आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना सकृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् अहोधिक्काम् गतिम् त्वद्य गमिष्यामि स बान्धवः सर्वैः सह मृतम् श्रेयो न च क्षमम् इति श्री महाभारते आदिपर्वणि बकवथ पर्वणि ब्राह्मण चिन्तायाम् षट्पञ्चाशदधिक